मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं त्रि पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः सूत उवाच शृणुध्वं मुनयः सर्वे स्थिरीकृत्यमनश्चलं विघ्नेशभक्तिहीनाये विघ्नाक्रान्ता भवन्ति ते दक्षो भूत् गत्वा क्रोथा मर्षसमन्वितः न किञ्चित् सुखवान् विप्राः शूलयुक्तो यथा नरः शिक्षां शिवस्य कर्तुं स हृदि व्यवसितो न किञ्चित् प्राप्तवांस्तत्र विचारं भृषदुःखितः एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः आजगाममःतेजा दक्षिणैव सुसत्कृतः आसनं पाद्यमख्यं च दत्त्वा सम्यक् प्रपूजितः पृष्ठत्सकुशलं प्रश्नाय प्रसन्नो नारदोऽब्रवीद नारद उवाच दक्ष किं ते मुखं म्लानतया युतं कथयस्व महाते जाः प्रजापदिपदिर्भवान् दक्ष उवाच शृणुनारदयेनाहं दुःखितो म्लानदां गदः शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ दर्पणैवावृतः शम्भुस्तस्य दर्पहृदि कथं तादृशम्ब्रूहि मे शीघ्रम् विचक्षणा नारद उवाच बृहस्पतिसवम् दक्ष कुरु सर्वभावनः यज्ञभागविहीनं तम् तत्र शम्भुम् कुरुष्व भोः यज्ञभागेन हीनोऽयम् देवपङ्क्ति बहिष्कृतः पिशाचाशो भवेच्छम्भुर्देवत्वं तत्र संहृतम् प्रजापदिपदि साक्षाद्भवान् सर्वत्र सम्मतः करिष्यसि यथापूर्वं पश्चाद्वै तादृशं भवेद् एवं परम्पराप्राप्तं तस्यैश्वर्यप्रकाशितम् इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु इत्युक्त्वा नारतस्तस्माद्गतो ब्रह्माण्डमण्डले वीणागानरतोदो भूत्वा योगी ब्रह्मणि तत्परः दक्षोऽपि हर्षिदो जातः सत्यम् मानितवानभूत बृहस्पतिः सवम् कर्तुम् समारेभ्ये स तत्क्षणाद तत्रा जगामभगवान्विष्णोर्देववरः प्रभुः आ जग्मुर्देवगन्धर्वा नानावाहनशोभिताः तत्रा जग्मुर्द्विजाः सर्वे नानातत्त्वार्थकोविदाः जामास्तरसपत्नीकात् कश्यपप्रमुखास्तथा यद्धोद्दिष्टं चकारासौ दक्षः परमहर्षितः गणनाथविहीनं तं यज्ञं शङ्करवर्जितम् गणेशस्या स्मृतिर्जादा सर्वेषां भाविगौरवाद दधी चिप्रमुखास्तत्र शैवा क्रोधेन पूरिताः दधीचिस्तत्र तु वाचक्रोधा वेशसमन्वितः शृणु दक्षमहाप्राज्ञहितं वचनमुत्तमम् शङ्करेण विहीनोऽयं यज्ञो नैव प्रशोभते प्राणहीनो यथा देहस्तथैवासौ न राजते इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः उवाच गर्वमोहेन शापेनैव विमोहितः शिवो शिवरूपश्च पिशाचानामधीश्वरः वर्णाश्रमविहीनत्वान्न योग्यो यज्ञकर्मणि यत्र लक्ष्मीपदि साक्षाद्भगवान् मङ्गलालयः तत्र किं न्यूनतां यादि मिथ्या तु मा श्रुत्वा वजक्रूरं वचक्रूरं दधीजिः पुनरब्रवीद शिवनिन्दां करोषि विमोहितः यज्ञनाशो भवेद्दक्ष शङ्करद्वेषतस्तव न सिद्धिं नष्टभाग्यो न संशयः अत्र ये ब्राह्मणाद्या समागताः सर्वे कलियुगे पापाः पाखण्डाश्च भवन्तु ते स्वधर्महीनतां प्राप्य नरकेन्द्रे पचन्तु वै विष्णु प्रमोदयुक्तोऽत्र सवै वै पाखण्डकारकः कलौ देवो भवेन् नित्यं पाखण्डानां सहायवान् पाखण्डप्रियवज्जन्धुः कलौ मलकरः सदा शिवहीने तथा यज्ञे मुख्यो जातोहि वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः मुनयो दुःखसंयुक्ता एवं शब्दा गतो मुनिः तमनुप्रयुः सर्वे श्च परमधार्मिकाः गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः यज्ञोऽयं नावलोक्यो वै वेदा वेदबाह्यक्रियात्मकः विष्णो नान्ये तदः सर्वे सान्त्विता संस्थिताः पदे देवतामुनयो वर्णाद्रष्टुं यज्ञं प्रहर्षिताः भृग्वादिमुनिभिस्तत्र यत्नारम्भकृतो भवत यथाविधि यथा भागं मके दक्षो हृष्टो भवत्तत्र यजमानः सुमन्दधीः वेदकल्पानुसारेण मुनयस्तन्विरेमखं यदस्मिन्नन्तरे तत्र कैलासे नारदो गतः शिवया सह शम्भुं च प्रणतो भूत्स भाविकः सतीं प्रदिप्रहस्यासनारथकलहप्रियः देवि दक्षाध्वरे कस्माद्गमनं न कृतं त्वया हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते इत्युक्त्वा नारदस्तस्मात् प्रययौ कौतुकी मुनिः गदे मुनौ सदी तत्र मानसे दुःखिता शङ्करं प्रणिपत्याः हृदयेन विदूयता नीलकण्ठनमस्तुभ्यं शङ्कराय शिवाय च सगुणाय मृडायैव निर्गुणाय नमो नमः गन्तुमिच्छात्वय सार्धमस्ति मे दक्षमन्दिरे तत्र यज्ञोत् सवो प्रार्थये विभो एवं श्रुत्वा भारदीं तां सदि शम्भुः सुबोधयन् स्मयमानश्च तामोचे किमिदं भाषसे प्रिये मद्वेषी जनको दक्षस्तवते न नाहं तस्मान्न गन्तव्यम् विपरीतम् भविष्यति भवती च महामाया मायिकोऽहं न संशयः सृजत्वम् मुनिदेवादीनत्र यत्नम् करोम्यहम् श्रुत्वा शम्भुवचो रम्यम् हृदयेन विदूयत उवाच दुःखिता देवी ममाज्ञां देहि शङ्कर न किञ्चिदुक्तवान् शम्भुस्तदा देवी पितुर्गृहे न प्रयोजनमाज्ञाया विचार्यैवं जगाम च यत ज्ञात्वा महाश्चर्यं विस्मितेन शिवेन भावि यद् भविता तद्वै विमानं प्रेषितं वरं विमानमास्थाय शक्तिराजगामविहाय सा पितृगृहमहाभागा मानिदा सर्वबन्धुभिः मात्रापित्रा स्वसृभिस्तु सत्कृदाहर्षितात्मभिः दक्षस्तत्र प्रमोदेन जगादतनयां प्रति आगता महाभागे यज्ञोऽयं शोभितस्त्वया श्रुत्वा पित्रुवचो रम्यं तं साप्रोवाच दुःखिता सत्युवाच भयामि कथं यज्ञं नाहूदा भवतात्र भोः अनाहूदा गदा त्वदीये यजनालये तदस कुपिदो दक्ष उवाच शृणुपुत्रिके मदीयो बहुलो दोषस्ते नत्वा दत्तवान्भ्रमाद पिशाच भूतराजाय पित्रा मे कथितं कृतं वर्णाश्रमविहीनाय बृधेश्वरपदाय च तस्य दोषेण देवित्वं नाहूता यज्ञकर्मणि स्वागतं ते तथाप्यद्य तिष्ठत्वं मत्समीपगा सुत उवाच विदुर्वचनमाकर्ण्य शिवनिन्दायुधं महद क्रोधसन्दप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा शुकोपः उवाच किं कृतं ताद वेदबाह्यक्रियात्मकः रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः शिवनिन्दां करोषि त्वं संशयः शिवेदिद्व्याक्षरं ब्रह्म निर्गुणं गुणधारणं न जानासि यतस्त्वम्भोस्तेनेकं दुःखिदाभृशं तव देहादसमुद्भूतो मम देहस्त्वयं पितः न योग्यशिव निन्दाय करणात्तं त्यजाम्यहम् इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शङ्करं प्रभुं योगाग्निना समुज्ज्वाल्यदेहं धाम्नि गदा भवद पुनः स्वमायया देवी हिमाचलसुता भवद शिवध्यानपरा साक्षात् तं लेभे सा पुनःपदिं तपस्तप्तं सुतीव्रं यत्तेन चात्मवशेन सा येभे मुदं शिवेनापि पार्वतीप्रेमविह्वलां तत्सदिश्रीमदाे पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते पार्वती देहत्यागो नाम तृतीयोऽध्यायः ओ